वरदे। सुप्रभातम् जगदीश्वरी। उत्तिष्ठजगदीश्वरी जगदाधारे। त्रैलोक्यं मङ्गलं कुरु शृणोषि कच्चिद्ध्वनिरुद्धितोऽयं मृदङ्गभेरी पडहानकानां वेदध्वनिं शिक्षितभूसुराणाम् शृणोषि भद्रे कुरु सुप्रभादं शृणोषि भद्रे ननु शङ्खकोषं वैदालिगानां मधुरं चगानं शृणोषि माधः पिककुक्कुडानां ध्वनिं प्रभादे कुरु सुप्रभातम् मादर्निरीक्ष्यवदनं भगवान् शशाङ्को लज्जान्वितस्वयमहो si निलयं प्रविष्टः द्रष्टुं त्वदीयवदनं भगवान् दिनेशो ह्यायादिदेविसदनं कुरु सुप्रभादम् पश्याम्ब के जिद्धृतपूर्णकुम्भाः जि धृतपुष्पमालाः काचित् ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभादं धैरीमृदङ्गपणवानगवाद्यहस्ताः स्तोदुं महेश दयिते स्तुतिपाठकास्त्वां तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः ह्युत्तिष्ठदिव्यशयनात् कुरु सुप्रभादम् मादर्निरीक्ष्यवदनं भगवान् त्वदीयं नैवोद्धितः शशिधिया विमलं प्रभादं जादं महेश दैरे कुरु सुप्रभातम् झल् झल्ध्वनिं नूपुरकङ्कणानां श्रुत्वा प्रभादे तव दर्शनार्थी द्वारिस्थितोऽहं कुरु सुप्रभादम् वाणी पुस्तकमम्बिगे गिरिसुधे पद्मानि पद्मासना रम्भा त्वम्बरडम्बरं गिरिसुधा गङ्गाजगङ्गाजलम् कालीतालयुगं मृदङ्गयुगलं वृन्दाजनन्दात् तथा नीला निर्मलदर्पणं धृतवती तासां प्रभातं शुभम् उद्धायते विषयनाद्भगवान् पुरारे स्नादुं प्रयादि गिरिजे सुरलोकनद्यां नै गोहिगन्तुमनखेरमदे दयार्द्रे शुक्तिष्ठदे वि शयनात् कुरु सुप्रभादम् पश्याम्ब केचित्फलपुष्पहस्था केचित् पुराणानि पठन्ति मातः पठन्ति वेदान् बहव स्तवारे तेषां जनानां कुरु सुप्रभादम् लावण्यसेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्पदर्पदलनोऽपि वशं गदस्ते कामारिचुम्बिदकपोलयुगं त्वदीयं द्रष्टुं स्थिता वयमये कुरु सुप्रभादं गाङ्गे यतोऽयमवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुम्बवो खडांश्च धृत् शिशुवीमकांक्ष मणा द्वार स्िदा वरदे कुद मंदारकुंदकुसुमरबिजापुष्पा विरचिता मनोहरा माल्या दिव्यपयोर विदाबी मुनह कुदं काञ्जीकलापरिरम्भनिदम्बबिम्बं काश्मीरचन्दनविलेपिदकण्डलेशं कामेशचुम्बिदकपोलमुदारनासां का द्रष्टुं स्थिता वयमये कुरु सुप्रभादम् मन्दस्मितं विमलचारुविशालनेत्रं कण्ठस्थलं कमलकोमलगर्भगौरम् चक्राङ्गितं चयुगलं पदयोर्मृगाक्षि द्रष्टुं स्थिता वयमये गुरुसुप्रभातं मन्दस्मिदं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते मन्दस्मितं विपुलहासमवेक्षितुं ते मातस्थिदा वयमये कुरु सुप्रभातं मादाशिशूनां परिरक्षणार्थं न चैव निद्रावशमेधि जगदां गदिस्त्वं सदाविनिद्रा विनिद्रा माधर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि श्रोतुं तवाम्बवचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभादं दिगम्बरो ब्रह्मकपालपाणिः विकीर्णकेशः तथापि मादस्तव देवि शङ्कात् महेश्वरोऽभूत् कुरु सुप्रभातम् हयिदुजननि द्रविडशिशुरभूद्वै ज्ञानसम्पन्नमूर्तिः द्रविडतनयभुक्तक्षीरशेषं भवानि विदरसि यदि मादः सुप्रभातं भवेन्मे जननि तव कुमारस्तन्यपानप्रभावात् शिशुरपि तव भर्तुकर्णमूले भवानि प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपाते भवेन्मे त्वं विश्वनाथस्य विशालनेत्रा हालस्य नादस्यनुमीननेत्रा एकाम्रनाथस्यनुकामनेत्रा कामेशजाये कुरु सुप्रभादम् श्रीचन्द्रशेखरगुरुर्भगवान् शरण्ये त्वत्पादभक्तिभरिदफलपुष्पपाणिः एकाम्रनाथदयिते तव दर्शनार्थी तिष्ठत्ययं यदि वरो मम सुप्रभादम् एकाम्रनाथदयिते ननु कामपीठे सम्पूचितासिवरदे गुरुशङ्करेण श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिं द्रष्टुं स्थिता वयमये गुरुसुप्रभादम् दुरिदशमनदक्षौ मृत्युसन्दासदक्षौ चरणमुपगदानां मुक्तिदौ ज्ञानदौतौ अभयवरदहस्तौ द्रष्टुमम्भस्तिदोऽहं त्रिपुरदलनजाये सुप्रभातं ममार्ये मादस्तदीयचरणं हरिपद्मजाद्यैः वन्द्यं रदाङ्गसरसिरुभशङ्कचिह्नं द्रष्टुं च योगिजनमानसराजहंसं द्वारिस्थितोऽस्मि वरदे कुरु सुप्रभादं जिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणां स्तवान्ये द्वारिस्थितानां कुरु सुप्रभातम् के जित्सुमेरोः शिखरेदितुङ्गे के जिन्मणि विशाले पश्यन्तु के जित्त्वमृदाब्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम् शम्भोर्वामाङ्गसंस्थां शशिनिभवदनां नीलपद्माय श्यामाङ्गां चारुहासां निबिडतरभुजां पक्वबिम्बाधरोष्ठीं कामाक्षीं कामदात्रीं कुडिलकचभरां भूषणायैर्भूषिताङ्गीं पश्यामः सुप्रभादे प्रणदजनिमदा मध्यनः सुप्रभातं कामप्रदा नान्यागदिर्मेणनुजातपोऽहं वर्षस्य मोघः कनकाम्बुधाराः काश्चित्तुधारा मयि कल्पयाशु त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीं त्रिलोकनायिकां वन्दे सुप्रभातं ममाम्बिगे कामाक्षि देव्यम्बतवार्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातं सद्यफलं मे सुखमम्बलब्धं तथा च मे दुःखदशा ददाही ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातं शृण्वन्ति एव त्वयि बद्धचित्ताः तेषां प्रभातम् गुरुसुप्रभातम् ओ